हर हि ॐीगुरुभ्यो नमः श्री, श्री आनन्दसागरस्तवं विज्ञापनार्हविरलावसरानवाप्त्या मन्दोद्य मे मयितवीयसि विश्वमातुः जभूतकरुणा पवनापविद्धा यन्तस्मराम्यहमपाङ्गतरङ्गितानि आवेद्यतामविदितं किं याव्यनुक्तं वक्तव्यमान्तररुजोपशुमायनालम् त्यसे किमपि तःश्रवणे निघातुं मातः प्रसीतमलयद्वजपाण्ड्यकन्ये आकान्दितं रुतितमाहतमानने वा यस्या मनो द्रवति या जगतां स्वतन्त्र तस्यास्तवां पपुरथक् कथयामिकेतं पर्याकुले मनसि वाचि परिस्खलन्त्या मा वर्तगर्त इव चक्षुषि पूर्णमाथे ते स्विधास्यति शिवे ममतामवस्थां काले तयस्व कथयामि तवादुनैव भक्तिं करोतु नितरां सुरजातिमात्रे ग्रामीण जन्तुरिव पौरजनेषु लोकः अन्यंत्रतेवि विभवधीयपधारविन्ता दाकृष्यमाणमपि मे हृदयं न याति अङ्गीकुरु त्वमवधीरय वा वयं तु दाशास्तवेति वचसैव जयेमलोकान् एतावतैव सुकरो ननु विश्वमाथ वाक्य जनितं विमलं विशारये रासाद्यभूतमनुचिन्तनतो परोक्षम् तिं व्रजन्ति मनुजा इति शुक्तिमाद्या मालं यकस्तरितुमर्हति शैलकन्येम् एकैकवेदविषया कथि नाम साखा तासां शिरांसि नाम पृथक् विधानी भो कवितुरोक्षरलाभ एव केषां नृणां गतिभिरस्तु शरीरबन्धै ज्ञाया परस्परविपिन्त दिश सहस्र मुच्चावचानि च भवद्योप ब्रह्मणानि एवं स्थिते गिरिसुते निकमोपलानां तात्पर्यसारमवधारयितुं क्षमकः अस्त्वक्षग्रहविधिर्जनुषा सहस्रये रापा ततो भवतो वापि ततोऽर्थभोगः दूर्वातिकल्पितविकल्पतरङ्कशान्त्रान् दुष्पूर्वपक्षलतेन् कथमुत्तरे यू ब्रह्मेति शक्तिरिति बन्तविमोचनीति मायामतीति मदनान्तकवल्लभेति सप्ताष्ट सप्त परिवर्तनमात्र एव सामर्थ्यमावहति शास्त्रपरिश्रमोऽयं तस्मै प्रसीदसि गिरीन्द्र सुतेयित्थं सम्पादयेत यस्मै प्रसीदसि शभदे मित्तं परस्परसमाश्रयमेतदास्ते आकर्ण्य त्वमिमप्योभगाम्यवाधं जानातु कोऽपि यदि वा हृदयं श्रुतीनां तस्याप्यस्मरं य भवबन्धसदार्जितोऽयं द्वैत प्रमो गलतो जन्म सथैक्यः काले महत्यन वधाव वधावपदं कदापि क्वाप्यन्ति मे जनुषि कोऽपि गातिं लभेत इत्यं समर्थनविधि परमागमाना पर्यायशुक्तिविधया नयनं न एका बवर्घसमये जगदोपवर्गान् सर्वा बवर्घसमये पुनरस्तशङ्कः इदुः कमपि पक्मिवाहलम्भ्य स्थातुं सुखं शममनेन पया प्रवृत्तये अभ्यस्य वेतमवताय च पूर्वतन्त्र मालक्ष्यशिष्टचरितानि पृथक् ी अध्यापनादिनिरवाप्य धनं च कर्माणि मातरलसा कथमाचरेयुः आयस्य तावदपि कर्म करोतु कश्चेत् तेनाभिमातरधिकं किमिहानुभव्यम् आस्ते सुखं य भारत भारतवर्षसीम्ह्यास्ते स किञ्चिविदित उत्तरतोपश्रुत्य कर्म त्यजेम यदि नो नमघपथेम यद्याचरेम न कदापि कर्मद्यजेतिति त्यजेतिति चरे दि निगमा इति न प्रथीम कर्मण्यकर्मविकिरेश यथा कर्माणि तत्तधनुभन्त जिहासयेति सत्यं तथाप्यभिनवो भविता न भन्थ प्राचीनभङ्कहरण इवाभ्युभाय प्रारब्धकर्म कियदारपते कियाब्द प्रारप्स्त्यते कियदितं क का इवावधत्ता काल कियानिव मया प्रतिपालनीयो यक्षणार्थमपि पुंसक्षणार्थमभिसंसरणाक्षमस्य सङ्गत्यातयक्षरणयो न विशन्ति कर्णं सङ्ख्यातयक्षरणयो न विशन्तिकर्णं सङ्ख्याय गङ्गा शिकता सकलाश्च सूक्ष्मा भुङ्क्ष्वेव महाक्षुदयार्ति तस्य तिस्तुका यदि भवेद्धृतिभावभेदा तत् केवलान्द्वयितया विफलैव भक्तेर् प्रीतिस्त्वयि त्रिजगदात्मनि नास्ति स्वात्मद्रुहो न कलुषन्ति जनास्त्रिलोक्याम् आत्मा समस्तजगतां भवतीति सम्यक् विज्ञाय यद् विधनुते त्वयि भावबन्धं सा भक्तिरित्यभिमतं यदि सिद्धमिष्टं विशेष्यमलमस्तु विशेषणं न यत्प्रीयते गुरुजनेष्विवसैव भक्ते श्यादे तदे वमियमेव तु मे द्वैतप्रमात् किमतिघम् भवभन्तमूलम् सेवैव वा भक्तिरिति कर्म प्रवेक्ष सेव्यप्रसादफलकम् किल ध्यानप्रवाह इति चेत्रवणादृतीय प्राघेव मातरयमाकलितोऽभ्युपायः अत्रैव दास्य शिविमुक्तिमतापि याचे मातश्शरीरपतनं मणिकर्णिकायाम् अस्तु स्त्वकृत्यमनुकम्पनमीश्वराणाम् दासस्य कर्म करदैव तथा स्वकृत्यम् सद्यो भवेत् सुकृतिनामुपधेक्षलाभः पापात्मनां बहिति समये व्यतीते इत्यादिभिक् किल पुराणवचेऽभिरम्भ वाराणसि मपि न याचितुमुत्सुकोऽस्मि आग्रान्तमन्तर रिभिर्मद मत्सराध्ये गात्रम् बलिपलितरो गशतानुविद्धम् धारैः स्तुतैश्च गृहमावृतमुक्तमर्णैर्मातः कथं भवतु मे मनसः प्रसाद त्रिभुवने परमोपभोग्यं संसारमेव परमेश्वरि भावयन्त आभासरूपमवभेदमिमं समेत्य क्लिश्ये कियत् कियदहं त्वमुना भवेन का संस्मृति किमपसारनिबन्तनेयं कृट्विघस्य तव किं क्षतमेतयेति प्रश्नेतु नास्मि त्वमेव केतस्तु मे जननिकोऽप्ययमेवमास्ते गतस्य मम साम्प्रथमे ददर्ह अस्मिन् प्रमाणमिदमित् त्यभिभोतृकुम्भ शक्तिर्न मे भुवनसाक्षिणि किं करोमि नज्ञायते ज्ञायते मम हितं नितरामुपायो दीनोऽस्मि देवि समयाचरणाक्षमोऽस्मि तत् स्वामनन्यशरणशरणं प्रबे मीनाक्षि विश्वजननी जननी ममैव किञ्चिन्मया श्रुतिषु किञ्चिदवागमीक्षु शास्त्रेषु किञ्चिदुपदेशपदेषु किञ्चित् आत्रातमस्ति यधो भवतिम्बरि त्वं गोप्रीति काशिदुधपध्यात बुद्धिरेश ब्रह्मैवमेवमहमेष तदाप्युपाय त्यागमार्तविधुरा प्रथमे दयार्हा त्वद्रक्षकत्वगुणमात्रविधो द्वितीया यत्यर्त्यये तावद्यते मम मामि मित्तमुपयुङ्क्ष्व न विस्मरेति किं स्वामिनं त्वरयते क्वचन स्वभूत्य ध्याजं विहितं च समाचराणि नित्येषु शक्तिमनुरुद्य हि वर्तितव्यम् तद्बुद्धिशक्तिमनुरुद्य न चेत देव तु शिवे विनिवेदयामि आत्मैव भार इति तं त्वयियो निघन्ते सोऽङ्घानि कानि कलयत्वलसप्रपथ्ये विश्वत्रशात्र तु विलक्षणलक्षणाय प्रेरणेन मिषतक् स्वसतोऽपि माथ भ्रामादिकेऽपि सति कर्मणि मेन दोष मात्रैव धत्तमक्षणम् ग्रसतक् सुतस्य को ना भवक्ष्यति शिशोरति भुक्तिदोषम् मुक्तिम् शिघाय इषताम् निजयैव प्रारब्धकर्म भवतो प्रतिभन्त हेदुः त्वामेव साधनदयापि समाश्रितानां तुल्यं तदं भ यदि कस्तव वीरवातः प्रारब्धकर्म गिरिजे भवदाश्रिता न मन्यन्त्रसङ्क्रमयनाशयवासमूलम् याश्च वपुषिप्रसक्तं विषं वपुषि शङ्क्रामयन्ति परतोऽपि श्रवण वन्दन चिन्तनाधि क्षाणि देवि विनियुज्य यथाधिकारम् रषेद्यशाङ्क्य भव सम्प्रतयैव मैत्या ऋग्याम् यति स्थिरमोन्यधुनैव न स्यूर्त्राधव्य एष इति चेत् करुणामयिष्यात् त्रायस्य किं सुकृतदुष्कृतचिन्तया मे कर्तुं च विशृङ्खलाय कर्मानुरोग इति कं प्रतिवञ्चनीयं त्वय्यर्पितं स्वात्मार्पणं विदधता स्वकुलं समस्तं का त्वं महेशिकुलदासमुपेक्षितुं मां को वानुपासितुमहं कुलदेवधां मौढ्यादहं शरणयामि सुरान्तरं चेत् किं तावता स्वमपि भवामि पातः अज्ञानतप् परगृहम् प्रवीक्षन् परस्य स्वं प्रयास्यति पशु किमुरा जकीय आधाय मूर्त निवृथैव भरं महान्तम् मूर्खा निमज्जत कथं भव विन्यस्य भारमखिलम् पदयोर्जनन्या विस्तृद्धब्धमुत् तरतपल्वलतुल्यमेनाम् क्वेतं पतिष्यति वपुक्वततोऽनुगम्यम् को दण्टयिष्यति कियन्तमनेहसं वा किं तस्य सन्तरणसाधनमित्यनन्ता चिन्ता स्थिता त्वयि शनैरवतारिता सा ज्ञानम् दिक्षेयमुत प्रारब्धमप्यफलभेयमुदानुहृद्या इत्यं सकृत्प्रबध नैकवशं वधाय मातुर्मयि प्रववृते महतीह चिन्ता एदज्झडा जडवेषणमेतदेव शित्यादितत्त्वपरिशोधनकौशलं च ज्ञानं च शैवमिदमागमकोटिलभ्यम् मातुर्यदङ्क्रियुगलं निहितो मयात्मा षट्त्रिंशतावरणमद्य जुषित्वदङ्घ्रौ हालस्य नादयिते निहितो मयात्मा भूभूतलत्रिदशवर्तिषु क्षमेत तच्चक्षुषाभिनिवृतेन निरीक्षितुं माम् बन्तं हरिष्यसि सुखम् वितरिष्यसीति निच्छप्रशम् निखिलमम्ब तदास्त एव सम्प्रत्यहम् त्वयि निधाय भरं समस्तम् यन्निर्वृणोमि किमितोऽपि ममा भवर्गे काश्यम् निबातय स्वर्गीं नयत्वर्गमधो बवर्गम अद्वै वा अद्वैव वा कुरु दयां वा कस्सम्भ्रमो मम धने दनिनप्रमाणम् नाखं सखे तव कथाश्रवणान्तरायम् नाखं सखे तव पदार्चन विश्युतिं वा मोक्षं दिशै तदविरुद्धमिदं न चेत्स्या आशूडमाचरणमम्बतवानुवार मन्तस्मरन् भुवनमङ्गलमङ्गमङ्गम् आनन्दसागरतरङ्गपरम्परापि रान्दोलितो न गणयामि गतान्यहानि पाषाणतोऽपि कठिने शिरसिश्रुतीना प्राय परिभ्रमवशादिवपाटलाभम् अम्ब स्मरेयमृतुतार्णवमातलब्धा हयङ्कवीनसुकुमारमिदं पदं ते ये नासन्ति पादेन मूर्निविध्रुतेन वयं तवाम्भ संसारसागरमिमं सुखमुत्तराम साधारणे मरजये निटिलाक्षिसाध्ये भाकीशिवो भजतु नाम यक्षक्समग्रं वामान्द्रिमात्रकलिते जननी त्वदीये का वा प्रसक्तिरिह पुरारे शात्कोमलं यदि मनो मम विश्वमाधस्तत्पादयोर्मृतुलयोस्तव पादुकास्तु शात्कर्कषं यदि करकृषणे पुरारे रस्मातिरोहणविधौ भवतुपयोगः प्रश्निगतमुक्तरुचिपादतले भवद्या लग्नं दृढं यदिह मे हृदयारविन्दम् एषैव शाग्रभुवन द्विषति पति स्व साम्राज्यसूचन करी तव पद्मरेखा बिदासि पदयो सुदृढम् मया तन्मे भवार्णवनिमज्जनकातरस्य मात क्षमस्व मधुरेश्वरि यत् णमन् पशुपतिप्रणया पराधे मन्दं किलश्य शृशति चन्द्रकलाञ्चलेन पुष्पार्चनेपि मृदितं पदयोर्युगं तन् मातस्तु दन्ति न कथं पुरुषा गिरोमि मप्राकृतं परममङ्गलमङ्ग्रिपद्मम् सन्दर्शयेत् अपि स कृप् धति दयार्द्र द्रष्टास्मिकेन दतहं तु विलोचनेन दिव्यातृशोभिषद्ग्रहणोचितानि वस्तूनि काममवधारयितुं क्षमन्ते त्वन्मात्रवेतभिभवे तव रूपधेये त्वब्धावयेष शरणं परिशेषितो नः अस्मिन् महत्य न वधौ किल कालचक्रे धन्यास्तु ये, ये कतिपये सुखयोगिमुख्याः तव न का नवधारयामः आसै स वान् ममतया कलितस्त्वया श वानृण्यमम्भतव लब्धुमनामृकाङ्गत्मानमेव बहुता विभज्य पादयोर्विनिदधे न कराबदेशान् नान्तः प्रवेशमयते किमपि श्रुतं मे नास्तिक्य वादशिलया प्रतिरुध्यमानम् पादोदकेन कियता परदेवताया सन्नाहिभिर्यमभटे परिवार्यमानें मय्यर्भके करुणया स्वयमापतन्त्या आकर्णयेयमपि नाम विरामकाले मातस्तवाङ्घ्रिमणिनो पुरसिञ्जितानि ब्रह्मे सकेशवमुखैर्बहुभिक्कुमारैर्पर्यायतः परिगृहीतविमुक्तदेशम् उत्सङ्गमम्बतव दास्यसि मे कदा त्वं मातृप्रियं किल जठं सतमामनन्ति ऊरौ शुरस्तव मा कर्णयेयमपि किं मणिकर्णिकायां काञ्चीगुणग्रथितकाञ्चनचेलदृश्य चण्डातकांशुकविभापरभागशोभि पर्यङ्कमण्डलपरिष्करणं पुरारेर्ध्यायामि ते निखिलमम्ब निदम्बबिम्बम् गर्भे निवेश्य भुवनानि च दुर्दशापि संरक्षितुं कलितनिश्चितया भवध्या प्राकारमेव रचितं परितोऽपि नून मोहेषु वर्णमय ताश्च वल्वपि यदि त्रिपुरे भवत्या तन्यासयास्तनतटं न परित्यजन्ती अस्माकमुद्भट भवत् मार्द्री भवन्त वदनानि कुतो न हेतो नष्पोपलब्धमतिगत्य शुशुषिञ्चिरान् मां परदेवतायाः क्लित्यत्पयोधरविनिःश्रुतदुग्धभिन्दु निश्यन्तपङ्क्तिरिवति व्यतिहारयष्टि यद्धर्जनमनोमयमैक्षभं ते तस्यास्तु देवी हृदयं मम मूलदेशं शाभातिरोपणविधौ चरणाञ्चलेन सम्भावय सम्भाव्यते किल समाक्रमणं सम्भाव्यते किल समाक्रमणं कदाचित् आस्थायदारुणतरं कमपि स्वभाव मत्यन्तदुष्कृतकृतामपि शिक्षणाय घृग्नासि सायकपथे गृग् नासि साय कपथे संस्तम्भयन्ति वशयन्ति च चा सर्वलोकान् चापं शरं च चा सकृधम्ब तव स्मरान्ते भूपालतां दतति भोगपतावतीर्णां पासाङ्कुशौ तव करे परिचिन्त्य द्वेषौ जयन्ति परमार्तविदस्तु धन्या एकत्र चापमितरत् क्षरं च मत्वा व्यावर्तयन्ति हृदयं विषयान्त कूपात् उत्क्रान्तमान्तरमिदं करणं जनाना मप्येति चन्द्रमिति हि श्रुतयो वधन्ति आस्तोमितं मम तु मनोधुनैव लीनं दृढं वदनचन्त्र मसि विद्यात्मने जननि तावकदन्तपङ्क्ते वैमल्यमीतृकिति वर्णयितुं क्षमखः तत्सम्भवा सवि ी तन्मूलकं कवियशोऽपि ततस्तरां ये स्वच्छामि दे वहति यत्किल तन्मे रजोऽव्यधिकरादिकपाटलिम्नि चित्ते परं परिचयादिति चिन्तयामि अर्धं जितन् त्रिपुरमम्ब तव स्मितं चेद् च तदा भवितव्यमेव तच्चिन्तये जननिकारणसूक्ष्मरूप स्थूलात्मकत्रिपुरशान्ति कृते स्मितं ते मत्क्लेशदर्शनपरि भदन्त्र रङ्ग हैयङ्गवीन परिवाहनिभं जनन्या अन्तस्तमोपहमनुस्मरतां जनानां मन्दस्मितं तव तु मङ्गलमस्तु भूत्यै सां सिद्धिकाननसरोरुह दिव्यगन्ध शान्तिकृते ताम्बूलशारमखिलागमबो दशारं मातर्विदेहि मम वक्त्रकलाशिकाया नासामणिस्तव शिवे चिरंस्तवेन प्रत्याकृते माविर्भवन्त्यसुरदेशिकतारकेवं ताम्बूलगर्भपरिपुल्लकपोलक्ष्यं ताटङ्गमौतिकमणिप्रतिबिम्बदम्भात् अस्थस्त्वयव्यधिकरामलस्त्वमाद्रुं पर्णं बिभर्ति जठरे तव ते श्रियं बहुविधां कुशलानि धत्ते धत्ते पढं सुरपतेरपिलीलयैव हि गृद्विधाम्ब तव नाद्यापि कर्णमतिवर्तितुमीश्वरीयं पाक्षाणकूटकठिने जन व्यर्थं महत् ्युपनिषद्विपिने प्रवृत्ता सेव्येत केन कामं शिवेन समितम् पुनरुज्जगार दृष्टिस्तवेति किमियं जननिस्तुतिस्ते स्तुतिस्ते लीलाप्रसूतपुरुषार्थचतुष्टयाय तस्या परं तु सभवत्य भवत्यवैयुत्यवादः सोमो जगज्जनयितेति वेधो निदं लता परमिति प्रमितव्यमार्यैर्यैव वामतनुवर्ति भवत्तृगात्मा चन्द्रो जगत्सृजति तत्पर एष बाधः सूच्यक्रवत् सुमति मनुवच्छ मे दृष्टिर्यदम्ब तव पश्यदिदानशौण्ढ दृष्ट्यास्त्वया वयमपीहतस्मरामो वेषन्तमेव भव सागरमुत्तरङ्गं वाणीनिकेतनतया गनसारघौर कह्लारकेशरऋष कमलानुषङ्घात् मातर्जयन्ति शरणागतलोकचेतो मालिन्यमार्जनवशाधसिता कटाक्षकर्णमुल्लसति मातरभाङ्गदेशे कालज्जनेन कारुण्यपूरपथवी कलितानुभन्तो विश्वं सृजत्यवति हन्ति च यत्कटाक्षो विश्वस्य तां कतमसौचपलस्वभावः एषोऽपि यामनुसरन् लभते यशां या तामेव विश्वसिमि देवि तवानुकम्पाम् अर्धं कलङ्करहिता करुणैव शम्भोरर्धं गुणास्तदितरे सकला समेतः इत्यम्बशम्प्रति किल स्पूरितं रहस्यं संपस्यतो मम भवन्मयस्मै समर्धम् अम्भप्रभोस्तव विशिष्टितमप्रम सम्पश्यतां निज निजार्तनिदेशहेतो तन्मूलधेशनिहितानि भृता सुराणा दृष्टिप्रयाति मृगनापि विशेषकत्वं सारं कणं कणमधर्मरुषां सहस्रात् सङ्गृह्य निर्मितमिदं बिम्बं तावत्सुधाकरकलङ्गकुलानि पश्चा धन्यत्र देवि निखितानि कचाबदेशाद् विन्यस्त्यमिन्त्रमणिगन्धलसुन्दरक्षु श्वर स दसाम् बिभर्ति चिन्ता मणिस्त्रिभुवनेश्वरि कौस्तुभश्च ख्यातौ मणि तव गृहाङ्गणकुटिमस्थौ किं रत्नमन्यदुपलभ्य किरीटकोटिं वाचस्पतिप्रभृतयस्तव वर्णयन्तु प्रादुर्भवत् तरणिबिम्बसतारुणानि पर्याप्तशीतकिरणायुतशीतलानि शृङ्गारसारपरिवाकमयानि मातः रङ्गानि केऽपि चरमे जनुषिस्मरन्ति प्रत्यग्रकुङ्कुमरसा कलिदाङ्गराघं मणिभूषणजालरंह्यं ताम्बूलपूरितमुखं तरुणेन्दुषूटं सर्वारुणं किमपि वस्तु अर्धं स्त्रियस्त्रिभुवने सचराचरेऽस्मिन्नर्धं पुमांस इति दर्शयितुं बवध्या स्त्रीपुंसलक्षणमिदं वपुरावृतं यत् तेनासि देवि विदिता त्रिजगच्छरीरा निर्मासि संहरसि निर्वहसि त्रिलोकीं वृद्धान्तमेतमपि वेदिन महेश तस्येश्वरस्य गिरिजे जातश्रुतिष्वपि जगज्जनकत्ववादः सत्तास्य कण्ठसुखसंविधासि त्रिलोके सर्गस्तदिप्रदिहतिष्वमि निर्व्यभेशा त्वामन्तरेण शिवयित् देहि मर्दम् शिवस्य भवतीत्यन्नभिज्ञवाद नास्मिन्नविस्तपति नात्र विभाति वाधो नास्य प्रवृत्तिमभिधेव जगत् अन्तःपुरं तदिद मीट्रु समन्तकारे रस्मादृशास्तु सुखमत्र शरन्ति बालां त्वत्सन्निधानरहितो मम मास्तु देश स्वतत्त्वभूतरहितो मम मास्तु विद्या त्वत्पादभक् तिरहितो मम मास्तु वंश त्वचिन्तया विरहितं मम मास्तु शायुः त्वं देवि यादृ कसि धातृ घसि त्वमित्रो घेशेति कहा मामेव तावद विधन्नतिपामरोऽहं मातस्तुतिं त्वयि समर्पयितुं विलज्जे काचित्कृता कृतिरिति त्वयि सार्पितेति मौढ्यं मधीयमिह यद्विदितं ममैव किं त्वं भविश्वसिमिति न शरण्यतां ते कालानपास्य विशुवायन सङ्क्रमाधि नस्तंगते हि मकरे च दिवाकरे च अम्बस्मरे चरणा रविन्ध मानन्दलक्षणमपास्तसमस्तभेतं चतुरत्यायिरूपं कलहंस व्यज्जनं जगन्मातुः अबरब्रह्ममयं वपुरन्त शशिकण्ठनामुपासे सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थशादिके शरण्ये त्रयम्बके नारायणि नमोऽस्तु हरहि ओ